जटासुरो मद्रकाणां च राजा कुन्तिः पुलिन्दश्च किरातराजः कथाङ्गवाङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण अङ्गोऽवङ्गसुमित्रश्च शैव्यश्चामित्रकर्षणः किरातराजः सुमना यवनाधिपतिस्तथा चाणूरो देवरातश्च भोजो श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः सुकर्म चैकितानश्च पुरुश्चामित्रकर्षणः केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः श्रुतायुश्च महाबलः अनूपराजो दुर्धर्षः क्रमदित्य सुदर्शनः शिशुपालः सह सुतः करुषाधिपतिस्तथा वृष्णीनाम् चैव दुर्धर्षाः कुमारा देवरूपिणः आहुको विप्रथुश्चैव गदःसारण एव च अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः भीष्मकोथाकृतिश्चैव वीर्यवान् केकयाश्च महेश्वासा यज्ञसेनश्च सौमखिः केतुमान् वसुमांश्चैव कृतास्त्रश्च महाबलः एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः उपासते सभायां स्म कुन्दीपुत्रम् युधिष्ठिरम् अर्जुनम् ये च संश्रित्य राजपुत्रा महाबलाः अशिक्षन्त धनुर्वेदम् रौरवाजिनवासचः तत्रैव शिक्षिता राजन् कुमारावृष्णिनन्दनाः रोक्मिणे यश्च साम्बश्च ययुधानश्च सात्यकिः सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः एते चाने चा उपासते महात्मानमासीनं सप्तविंशतिः चित्रसेनः सहमात्यो गन्धर्वात्सरसस्तथा गीतवादित्रकुशलाः साम्यतालविशारदाः प्रमाणेथलये स्थाने किन्नराः कृतनिश्रमाः सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा गायन्ति दिव्यता नैस्ते यथा न्यायं मनस्विनः पाण्डुपुत्रान् ऋषींश्चैव रमयन्त उपासते संव्रताः सत्यसङ्गराः दिवि वदेवा ब्रह्माणं युधिष्ठिरमुपासते इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि सभाप्रवेशो नाम चतुर्थोऽध्यायः